मुपत्टावकम श्रीकृष्ण जननम आनंद भगवेवतादीद निरीह मणे काज गागन मंडलैद्याचे किल वर्ष आचासु आचा तरासु पयोद ये आचासीदा दिवसु सज्जन नईाक यदवितौ निशिमध्यमायाम् क्लेशा भगस्त्रिजगताम् त्वविहा विरासी नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण बाल्यस्पृशापि बुषा ददुषा विभूति उद्यत्किरीटकटकाङ्गतः विलासि लक्ष्मी मन्दाक्ष विमोक्ष मन्दाक्षलक्षितकटाक्षविमोक्षबेतये कन्मन्दिरस्य कलकम् सकृतामलक्ष्मी उन्मार्जयन्निव वा विरेजित वासुदेव चौरिस्तु दीरमुनिमण्डलचेतसोऽपि दूरस्थितम् वबुरुदीक्ष निजेक्षणाभ्याम् आनन्दबाष्पबुलगोद्गमगर्गदाद्र दुष्टावदृष्टिमगरन्दरसम्भवन्तम् देवप्रसीतपरपूरुषतापवल्ली निर्लूनिदात्र समनेत्र कलाविलासिन् मात्रा च नेत्र सलीलात्रदगात्रवल्ल्या श्रोत्रैरविष्टुदगुण करुणालयस्त्वम् प्राचीनजन्मयुगलम् प्रतिबोत्यदाप्या मा दुर्गिराददितमानुषबालवेशम् त्वत्प्रेरितस्तदनुनन्ददनूजया ते व्यत्यासमारचयितुम् स किसूरसून्यो त्वाम् हस्तयोरधितचित्तविदार्यमार्य रम्यम् अम्बोरुहस्तकलहंस किशोरम्य शेषेन भूरिपणवारितवारिणात स्वैरम् प्रदर्शितवतो मणिदीपितेन त्वाम् धारयन् स खलु धन्यमत प्रदस्ते सोऽयम् त्वमीच मम नाशयरोगवेगान् अच्युतम् केशवम् कृष्णतामोदरम् देवकीनन्दनम् राधिका राधिका सर्वत्र गोपिका जीवनस्मरणम् गोविन्दा गोविन्दा